मकंडेयपुराण अध्यामिणचु हरिश्चंद्रेदिराजर्षिरासित्र युगे पुरा धर्मात्मा पृथिवी पाल प्रोल सत्कर्तिमर्भिक्ष न जव्यार्ना कालमृण नाधर्मरुच यः पौरास्तस्मिंशाश्वति पार्थिवे बभूवुर्नत्तथोन्मत्ता धनवीर्यतपोमदैः नाजायन्तस्त्रियश्चैव काश्चिदप्राप्तयौवनाः स कदाचिन्महाबाहुररण्येऽनुसरन्मृगम् शुश्रावशब्दमसकृत्राय स्वेति च योषितां सविहाय मृगं राजा मा भैषीरित्यभाषद मयि शाश्वदि दुर्मेधा कोऽयमन्याय वृत्तिमान् तत्क्रन्थितानुसारी च सर्वारम्भविखातकृत्येकस्मिन्नन्तरे रौद्रो विघ्नराट् समचिन्तयद विश्वामित्रोयमधुलं तप आस्थाय वीर्यवान् प्राग्सिद्धाभवादीनां विद्या साध्यतिव्रती साध्यमानाः क्षमा मौनचित्तः संयमिनामुना ता वै कथं कार्यमिदं मया तेजस्वी कौशिकश्रेष्ठो वयमस्य सुदुर्बलाः क्रोशन्त्येदास्तथाभिधा दुष्पारं प्रतिभाधि अधवायम् अधवायं मा भैरिति इममेव प्रविश्याशु साधयिष्ये यथेप्सितम् इति संचिन्त्य रौद्रेण विघ्नराजेन वै ततः तेनाविष्टो नृभक्कोपादिदं वचनमब्रवीद बग्नादि बघ्नादिवस्त्रान्दे पावकं पापकृन्नरः दीप्ते पत्या बलोष्णतेजसते मयिपतुपस्थि सोद्यमत्ेप विदीदिगंधर विभिन्न सर्वांगो दीर्घ निद्रा प्रवेश्य दी। विश्वाद क्रुद्धश्रुवा तन्नृपते वचह क्रुद्धे चर्षि वरे तस्मिन्नेषुर्विद्याः क्षणे न ताः राजा तं दृष्ट्वा विश्वामित्रं तपोनिधिं भीधप्रावेपदात्यर्थं सह शाश्वतपर्णवत् सदुरात्मन्निधि यदा मुनिस्तिष्ठेधि चब्रवीत् ततः स राजा विनयात् प्रणिपत्याभ्यभाषत भगवन्वेष धर्मो मे नापराधो मम प्रभो न मुने निजधर्मरतस्य मे रक्षितव्यं च धर्मज्ञेन महीक्षिता चापं चोद्यम्य योद्धव्यम् धर्मशास्त्रानुसारतः विश्वामित्र उवाच दादव्यं कस्य गे रक्ष्या कैर्योद्धव्यं च ते नृव क्षिप्रमेदत्समाचक्ष्व यद्यधर्मभयं तव हरिश्चन्द्र उवाच दातव्यं विप्रमुख्येभ्यो ये चाहे कृश्य वृत्याभ सदा युद्धम करपन्थिभ विश्वाम उवाच यदि राज भवान्न सम्यग्राजधर्मेक्ष निर्वेष्टु कामो विप्रोहं विप्रोहम दीयता मिष्टिणा पक्षिणु ये दद्राजा वचश्रुत्वा प्रहृष्टेनाधरात्मना पुनर्जातमिवात्मानं मेने प्राहजकौशिकम् उच्यतां भगवन् यत्ते दातव्यमविषङ्गितं दत्तमित्येव तद्विद्भि यद्यपि स्यात् हिरण्यं वा सुवर्णं वा पुत्रः पत्नीकलेवरं प्राणाराज्यं पुरं लक्ष्मीर्यदभिप्रेतमात्मनः विश्वामित्र उवाच राजन्प्रतिगृहीतोऽयं यस्ते दत्तः प्रदिग्रहः प्रयच्छ प्रथमं तावद् दक्षिणां राजसूयिकीम् राजोवाच ब्रह्मंस्तामपि दास्यामि दक्षिणां भवदो ह्यहं ब्रियदां द्विजशार्दूलयस्तवेष्टः प्रतिग्रहः विश्वामित्र उवाच ससागरां धरामेधां सभोभृग्रामपत्तनां राज्यं च सकलं वीररथाश्वगजसङ्कुलं कोष्ठागारं च कोषं च यच्चान्यद्विद्यते तव विना च पुत्रं च शरीरं च तवानख धर्मं च सर्वधर्मज्ञ यो यान्दमनुगच्छति बहुना वा किमुक्तेन सर्वमेतत्प्रदीयतां उजुहु ऊचुः प्रहृष्टेनैव मनसा सोऽविकारमुखो नृपः तस्य श्रुत्वा तदेत्यागकृताञ्जलिः विश्वामित्र उवाच सर्वस्वं यदि मे दत्तं राज्यमुर्वोबलं धनं प्रभुत्वं कस्य राजर्षे राज्यस्थे तापसे मयि हरिश्चन्द्र उवाच यस्मिन्नपि मया काले ब्राह्मन् दत्ता वसुन्धरा तस्मान्नपि भवान् स्वामी किमुताद्यमहीपतिः विश्वामित्र उवाच यदि राजं त्वया दत्ता मम सर्वा वसुंधरा यत्रमे मे विषये स्वाम्यं तस्मान्निष्क्रान्तुमर्हसि श्रोणीसूत्रादिसकलं मुक्त्वा भूषणसङ्ग्रहं तरुवल्कलमाबध्य सह पत्न्या सुतेन च पक्षिण ऊचुः तथेदि चोक्त्वा कृत्वा च राजा गन्तुं प्रचक्रमे स्वपत्न्या शैव्यया सार्धम् बालकेनात्मजेन च प्रचतसततो रुद्ध्वा स्पन्थानं प्राकतं नृपं क्व यास्य शीत्य दत्त्वा मे दक्षिणां राजसूयिकीं हरिश्चन्द्र उवाच भगवन् राज्यमे मे दत्ते दत्तं निषधकण्डकम् अवशिष्टमिदं ब्रह्मन्न देहत्रयं मम विश्वामित्र उवाच तथापि खलु दादव्या यज्ञदक्षिणा विशेषदो ब्राह्मणानं हन्ध्यदत्तं प्रतिश्रुतं यावत्तोसो राजसूये ब्राह्मणानाम् स भवेन्नृप तावदेवदुदातव्या दक्षिणाराजसूयिकी प्रतिश्रुत्यज दातव्यं योद्धव्यं चादतायिभिः रक्षितव्यास्तथा चार्तास्त्वयैव प्राक्प्रतिश्रुतम् हरिश्चन्द्र उवाच भगवन् साम्प्रतं नास्ति दास्ये कालक्रमेण प्रसादं कुरु विप्रर्षे सद्भावमनुचिन्त्य च विश्वामित्र उवाच किं प्रमाणो मया कालः प्रदीक्ष्यस्ते जनाधिप शीघ्रमाचक्ष्वशापाग्निर्नन्यथा त्वां प्रधक्ष्यति हरिश्चन्द्र उवाच मासेन तव विप्रर्श्ये प्रदास्ये दक्षिणाधनं साम्प्रतं नास्ति मे वित्तमनुज्ञां दातुमर्हसि विश्वामित्र उवाच गच्छ गच्छ नृपश्रेष्ठस्वधर्ममनुपालय शिवश्च तेध्वा भवदु मा सन्तु परिपन्धिनः पक्षिण ऊचुः अनुज्ञातश्च गच्छेदि जगामवसुधाभिपः पद्भ्यामनुचिदागन्तुमन्वगच्छद तं प्रिया तं सभार्यम् नृपश्रेष्ठं निर्यान्दं ससुदं पुराद दृष्ट्वा प्रजुकृषुः पौरा राज्ञश्चैवानुयायिनः हा नाथ किं जहास्यस्मान्नित्यार्तिपरिपीडितान् त्वं धर्मतत्परो राजन्पौरानुग्रहकृतधा न यास्मानपिराजर्षे यदि धर्ममवेक्षसे मुहूर्तं तिष्ठराजेन्द्र भवदो मुखपङ्कजं पिबामो नेत्रभ्रमहैः कदा द्रक्ष्यामहे पुनः यस्य प्रया तस्य पुरो यान्तिपृष्ठे च पार्थिवाः तस्यानुयादिभार्येयं गृहीत्वा बालकं सुतं यस्य भृत्याः प्रयातस्य यान्त्यग्रे कुञ्चरस्थिताः स एष पद्भ्यां राजेन्द्रो हरिश्चन्द्रोऽग्यगच्छति हाराजन् सुकुमारं ते सुभ्रुसुत्वजमुन्नसं पथिपांशुपरिक्लिष्टं मुखं कीदृग्भविष्यति तिष्ठतिष्टनृपश्रेष्ठस्वधर्ममनुपालय आनृशंस्यं परो धर्मः क्षत्रियाणां विशेषतः किं दार्हैः किं सुतैर्नाथ धनैर्धान्यैरधापि वा सर्वमेतत्परित्यज्य छायाभूदा वयं तव हानाथहा महाराज हा स्वामिन् किं जहासिनः यत्र तत्र हि वयं तत्सुखं यत्र वै नगरं तद्भवान् यत्र स स्वर्गो यत्र नो नृपः इति पौरवच श्रुत्वा राजा शोकपरिप्लुतः अतिष्ठत्स तदा मार्गे तेषामेवानुकम्पया विश्वामित्रोऽपि तं दृष्ट्वा पौरवाक्याकुलीकृतम् रोषमर्षविवृत्ताक्षः समागम्यवजो ब्रवीद दुष्टसमाचारमनृदं जिग्मभाषणं मम राज्यं च दत्त्वा यः पुनः तेन गच्छामीति सवेपधुः ब्रुवन्नेवं व्ययौ चीक्रमाकर्षन्दयितां करे कर्षतस्तां तदो भार्यां सुकुमारीं श्रमादुराम् सहसा दण्डकाष्ठेन ताडयामास कौशिकः तां तथा ताडितां दृष्ट्वा हरिश्चन्द्रो महीपतिः गच्छामीत्याह दुःखार्थो नान्यत् किञ्चिदुदाहरत् अथ विश्वे तदा देवाः पञ्चप्राहु कृपालवः विश्वामित्रस्तु पापोऽयं समवाप्स्यति येनायां यज्वनां श्रेष्ठस्वराज्यादवरोपितः कस्य वा श्रद्धया पूतं सुदं सोमं महाध्वरे पीत्वा वयं प्रयास्यामो मुदं मन्त्रपुरःसरं पक्षिण ऊचुः इति तेषां वचः श्रुत्वा कौशिको दीरुषान्वितः शशाप मनुष्यत्वं सर्वे यूयमवाप्स्यथ प्रसादितश्च तैः प्राह पुनरेव महामुनिः मानुषत्वेऽपि भवतां भवित्री नैव सन्ददिः न दारसङ्ग्रहश्चैव भविता न कामक्रोधविनिर्मुक्ता भविष्यधसुराः पुनः तदोऽवतेरुरं शैश्वैर्देवास्ते कुरुवेश्मनि द्रौपदी गर्भसम्भूताः पञ्च वै पाण्डुनन्दनाः ये तस्मात्कारणात्पञ्च पाण्डवेया महारथाः न दारसङ्ग्रहं प्राप्ता शापात् तस्य महामुनेः ये दत्ते सर्वमाख्यातं पाण्डवेयकथाश्रयं प्रश्नं चतुष्टयं गीतं किमन्यच्छ्रोतुमिच्छसि इति श्रीमार्कण्डेयपुराणे द्रौपदेयोत्पत्तिर्नाम सप्तमोऽध्यायः ओ